श्रीमद्भागवत् महापुराणं दशमस्कन्ध अधैकत्रिंशोऽध्यायः गोपिका गीत गोप्यवचुः जयतितेऽधिकं जन्मना व्रजः श्रयत इन्दिरासस्वतत्र हि दयितदृश्यतां दक्षतावकाश त्वयिधितासु विचिन्वते जात सरतदासये साधुजातसंसरसीज्योदर श्रीमुषादृशां शरतनाथ ते शुल्कदासिका वरदविघ्नतो नेह किं वध विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्यतानलात् विषमयात्मजात विश्वतो भयादृशभते वयं रक्षता मुहुः न खलु गोपिकानन्दनो भवानखिलदेहि नामन्तरात्मदेखनसार्थितो विश्वगुप्तये सकुदे जुवानसात्वतां कुले विरचिताभयं विष्णुधुर्यते चरणमीयुषां संसितैर्भयात् जडसरोरुहं कान्तकामदं शिरसि धेहि न श्रीकरग्रहम् व्रजजनार्तिहन्वीरयोषितां निजजनस्मयध्वंसनस्मित भज सखे भवत्किङ्करि स्मरो जलरुहाननं चारुदर्शय प्रणृतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनं फणिफलार्पितं ते पदाम्बुजं कृणकुचेषु न कृन्धित्यम् मधुरया गिरा बल्गोवाक्यया बुधमनोज्ञया पुष्करेक्षण विधिकरीरिमा वीरमुह्यति रथरसीधुनाप्यायस्त्वनः तव कथामृतं तप्तजीवनं कविव्रीडितं कल्मषापहं त्रमणमङ्गलं श्रीमदाततं भवि गृह्णन्ति ते भूरिदा जनाः प्रहसितं प्रियप्रेमवीक्षणं विरहणं च ते ध्यानमङ्गलम् रहसि संवेदो या शिजेस्पृश कुहकनो मनः शोभयन्तिः चलसि यन् ब्रजाच्चारयन् पशुन्नलिनसुन्दरं नाथ ते पदं शीलतृणाङ्कुरै सीदतीति न कलिलतां मनः कान्तगच्छते दिनपरीक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतं घनरज्यस्वरं दर्शयन् मुहुर्मनसि न स्मरं वीरयक्षसे पद्मजार्चितं धरणिमण्डनं ध्येयमापदे चरणपङ्कजं शन्तमं च तये रमणनस्तने श्रुतं वर्धनं शोकनासनं स्वरितवेणुना सुष्ठुचुम्बितम् इतररागविस्मारणं नृणां विस्तरवीरनस्ते धरामृतम् अटति यदं भवानह्निकाननं त्रुटियुगायते त्वामपश्यतां कुटिलकुन्तलं श्रीमुखं च ते जल उदीक्षतां पक्ष्मकृद्शाम पतिसुतान्मभ्रातृबान्धवान् अतिविलङ्घ्य तेन्त्यच्युतागताः गतिविदस्तवोद्गीतमोहिताः कृतौ योषितकश्च जने जैन्निषे दहसि संविदं हृच्छयोदयं त्रहसि ताननं प्रेमवीक्षणं बृहदुरं श्रियो वीक्षधाम ते मुहुरते स्पृहामुह्यते मनः व्रजवनौकसां व्यक्तिरङ्गते वृजिनहन्यद्रलं दस्वमङ्गलं तजमनाक् च नस्त्वत्मनां स्वजनसदृजां जन्यषूदनं यत्ते सुजातचरिणां बृहंसनेषु भीताशनै प्रियदधीमकर्कशेषु तेनाटविमटति तन् व्यसतेन किञ्चित् गुरुपादिभिर्भ्रमतिथेर्भवदायुशां नः श्री श्रीमद्भागुते महापुराणे पारभ्यां शयितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकसंशोध्याय